श्रीहरये नमः अथ अष्टमोऽध्यायः राजोवाच ब्रह्मणा चोदितो ब्रह्मण् गुणाज्ञाने गुणस्य च यस्मै यस्मै यथा प्राक् नारदो देवधर्षणः एतद् वेदितुमिच्छामि तत्त्वं वेदविधाम्बर हरेरद्भुतवीर्यस्य कथालोकसुमङ्गलाः कथयस्व महाभाग यथाकमखिलात्मनि कृष्णे निवेश्य निस्सङ्गं मनस्त्यक्लेवरं शृण्वतः श्रद्धया निध्यं कृष्णतस्य स्वचेष्टितं कालेन भगवान् विसते हृदिं प्रविष्टकर्णरन्ध्रेण स्वानां भावसरोरुरुरुहं धुनोति समलं कृष्ण सलिलस्य यथा शरत् दौतात्मा पुरुषकृष्णपादमूलं च मुञ्जति मुक्तसर्वपरिक्लेशक्तान्तस्वशरणं यथा यदा धातुमथो ब्रह्मन् देहारम्भोऽस्य धातुभिहे यद्दृश्यया हेतुना वा भवन्तो जानते यथा आसीत्यदुदरात्पद्मं लोकसंस्थानलक्षणं यावानयं वै पुरुष इयत्तावय वै भृत तावान् असाविति प्रोक्तक् संस्तावय भवानिव अजसृजति भूतानि भूतात्मा तदृशे तद्रूपं नाभिपद्मसमुद्भवः स चापि यत्र पुरुषो विश्वस्थित्युद्भवाव्ययः मुक्त्वात्ममायां माये शेते सर्वगुहायशयः पुरुषावयवैर्लोका सपाला पूर्वकल्पिताः लोकैरमुष्याभयवा भा सपालैरिति शुश्रुमा यावान् कल्पो विकल्पो वा यथा कालोऽनुमीयते भूतभव्यभवश्चप्त आयुर्मानं च यत्सतः कालस्यानुगतिर्यातो लक्षतेन्वि बृहद्यभि यावत्यः या कर्मगतयो यादृशी कर्मसमावायो यथा येनोपगृह्यते गुणानां गुणीनां चैव परिणामम् अभीप्सतां भूपातालकगोप्योमग्रहनक्षत्रभूभृतां सरित्समुद्रद्वीपानां सम्भवश्चैतजोगसां प्रमाणं मण्डकोशस्य बाह्याभ्यन्तरभेदतः महतां चानुचरितं वर्णाश्रमभिनिश्चयः युगानि युगमानं च धर्मो यश्च युगे युगे अवधारानुचरितं यथाश्चर्यतमं हरेः नृणां साधारणो धर्म सविशेषश्च यादृशः सरेणीनां राजर्षीणां च धर्मकृश्रेषु जीवतां तत्त्वानां परिसङ्ख्यानां लक्षणं हेतुलक्षणम् पुरुषाराधनविधैर्योगस्याध्यात्मिकस्य च योगेश्वरैश्वर्यगतेर्लिङ्गभङ्गस्तु योगिनां वेदो भवेदधर्माणाम् इतिहासपुराणयोः संप्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यश्चानुसायिनां सर्गपाखण्डस्य च सम्भवः आत्मनो भन्तमोक्षौ च व्यवस्थानां स्वरूपतः यथात्मतन्त्रो भगवान् विक्रीडति आत्ममायया विसृज्यमायता मायामुदास्ते साक्षिवत् विभुः सर्वमेतच्च भगवन् मेनो पूर्वशः तत्त्वतोऽर्हस्युदाहर्तुम् प्रपन्नाय महामुने अत्र प्रमाणं हि भवान् परमेष्टि यथात्मभूः परे चेहानुतिष्ठन्ति पूर्वजैकृतं न मे सवः परायन्ति ब्रह्मन् अनसनाधमिये पिबधोश्च्युतपीयूषम् अन्यत्र कुपिधाद्विजात सूत स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः ब्रह्मरोतो भृशं प्रीतो विष्णुरातेन संसदि प्राहभागवतं नाम पुराणं ब्रह्मसंमितं ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते यत्यत्परीक्षितृषभपाण्डूनाम् अनुपृच्छति आनुपूर्व्येण तत्सर्वं आख्यातुमुपचक्रमे इति श्रीमद्भागवते महापुराणे द्वितीयस्तन्ते प्रश्नविधिर्नाम अष्टमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिके जय